हरि ओम् श्री सीता रामचन्द्राभ्य नमस् अथ श्रीमद् वाल्मीकि रामायणे वयोध्याकाण्डे षष्ठीतमः सर्ग कौसल्याया विलापमन्त्रेण तस्याश्वासनं च ततो भूतोपसृष्टेव वेपमाना पुनः पुनः धरण्यां गतसत्त्वैव कौसल्य सूतमब्रुवी नय मां यत्र काकुत्स ीता यत्र च लक्ष्मणः तान् विना क्षणमप्य जीवितुं नोत्सहेह्ययम् निवर्तय रथं शीघ्रम् दण्डकान्नय मामपि अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् बाष्पवेगोपहतयात् वाचा सज्जनमानय इदम् आश्वासयन् देवीं सुत प्राञ्जलिरब्रवीत् त्यज शोकम् च मोहम् च सम्भ्रमम् दुःखजम् तथा व्यवधूय च सन्तापम् वने वस्य तिराघवे लक्ष्मण चापि रामस्य पादौ परिचरन् वने आराधयति धर्मद्य परलोकम् जितेन्द्रिय विजनेऽपि वने सीता वासम् प्राप्य गृहेष्विवे भं लभते भीतः रामे विन्यस्य मानस न्यास्या दैन्यम् कृतं किञ्चित् सुसूक्ष्मम् अपि लक्ष्यते उच्यतेव प्रवासाम् वैदै प्रतिभाति मे नगरे नगरोपवनम् गत्वा यथा स्म रमते पुरः तथैव रमते सीतः बालेव रमते सीता बालचन्द्र निभनन रामा रामे यदीनात्मा विजने जीवने सति तद्गतम् हृदयम् यस्य तदधीनम् च जीवितम् अयोध्यायी भवेदस्य रामहीनः तथा वनम् परिपृच्छति वैदेही ग्रामाश्च नगराणि गतिम् दृष्ट्वा नदीनाञ्च पादपान् विविधान् अपि रामम् वापि दृष्ट्वा जानाति जानकी अयोध्याक्रोशमासुरे तु विहारम् इव साश्रित इदम् एव स्मराम्यस्य सहसैवोपजल्पितम् कैकेयी संस्कृतम् जल्पम् नैदानीम् प्रतिभाति ध्वंसयि स तु तद्वाक्यम् प्रमादात् पर्युपस्थितम् लादनम् वचनम् सुतु देव्य मधुरमब्रवीत् अध्वना वातवेगेन सम्भ्रमेणातपेन च न विगच्छति वैदेह चन्द्रांशु सदृशी वदनं च ददान्याय वैदेह्या न विकम्पते अलक्त रसरक्ताभौ अलक्त रसवर्जितौ अद्यापि चरणो तस्य पद्मकोश स्मप्रभौ नु पुरोत्कृष्टलीलेव खेलम् गच्छति भामिनी इदानीमपि वैदेहि तद्रागान्यस्य भूषण गजं वा वीक्ष सिंहं वा व्याघ्रं वा वद्रितः नाहार इति सन्त्रासम् बाहू रामस्तु संश्रितः न शोच्यास्ते न चात्मा ते नापि च इदं हि चरितं लोके प्रतिष्ठा चति शाश्वतं विधोय शोकम् महर्षिया ते पथिसौ व्यवस्थिता वने रता वन्यफलाशनापि तु शुभां प्रतिज्ञां प्रतिपालयन्ति ते तथापि तु तेन सुयुक्तवादिना निवार्यमाणाः सुतशोकर्षिताय न निवार्य चैव देवी विरामपूजिताय प्रियेति पुत्रेति च रावेति विचार श्रीमद् रामायणे वल्मीकी अधिकारिकाण्डे षष्ठीम स्वर्गारामचन्द्र अरव न